अथ पञ्चदशः सर्गः ततः पञ्चवटीम् गत्वा नानाभ्यालमृगायुताम् उवाच लक्ष्मणम् रामो भ्रातरं दीप्ततेजसम् आगता स्म यथोद्दिष्टम् यम् देशम् अयम् पञ्चवटी देशः सौम्यपुष्पितकाननः सर्वतश्चार्यताम् दृष्टिः कानने आश्रमः देशे भवति सम्मतः रमते यत्र वैदेही त्वमहम् चैव लक्ष्मण तादृशो दृश्यताम् देशः सन्निकृष्टजलाशयः वनरामण्यकम् यत्र जलरामण्यकम् तथा सन्निकृष्टम् च यस्मिंस्तु समित्पुष्पकुशोदकम् एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः सीतासमक्षम् काकुत्स्थमिदम् वचनमब्रवीत् परवानस्मि काकुत्स्थत्वयि वर्षशतम् स्थिते स्वयम् तु रुचिरे देशे क्रियतामिति माम् वद सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महाद्युतिः विमृशन् रोचयामास देशम् सर्वगुणान्वितम् सतम् रुचिरमाक्रम्य देशमाश्रमकर्मणि हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् अयम् देशः समश्रीमान् पुष्पितैस्तरुभिर्वृतः इहाश्रमपदम् रम्यम् यथावत्कर्तुमर्हसि इयमादित्यसङ्काशैः पद्मैः सुरभिगन्धिभिः पद्मशोभिता यथाख्यातमगस्त्येन मुनिनाभावितात्मना इयम् गोदावरी रम्या पुष्पितैस्तरुभिर्वृता हंसकारण्डवाकीर्ना चक्रवाकोपशोभिता नातिदूरेण चासन्ने मृगयूथनिपीडिता मयूरनादितारम्याः प्रांशवो बहु कन्दराः दृश्यन्ते गिरयः सौम्यफुल्लैस्तरुभिरावृताः देशे सौवर्णराजतस्ताम्रैर्देशुभ गवाक्षितावा भाति गजा परम भक्ति सालस्तालैस्तमश्चर्जूर पनसैर्द्रुम नीवाईस्श पुन्नाशोभिता चूतरशोक चंपक पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः स्यन्दनैश्चन्दनैर्नीपैः पर्णाशैर्लगुचैरपि धवाश्वकर्मखदिरैः शमीकिम् शुकपाटलैः इदम् पुण्यमिदम् रम्यमिदम् बहुमृगद्विजम् इह वत्स्यामसौमित्रे सार्धमेतेन पक्षिणा अचिरेणाश्रमम् भ्रातुश्चकार सुमहाबलः पर्णशालाम् सुविपुलाम् तत्र सङ्घातमृत्तिकाम् सुस्तम्भाम् मस्करैर्दीर्घैः कृतवंशाम् सुशोभनाम् शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम् कुशकाशशरैः पर्णैः सुपरिच्छादिताम् तथा समीकृतलाम् रम्याम् चकारसु निवासम् राघवस्यार्थे प्रेक्षणीयमनुत्तमम् स गत्वा लक्ष्मण श्रीमान्नदीम् गोदावरीम् तदा स्नात्वा पद्मानि चादाय सफलः पुनरागतः ततः पुष्पबलिम् कृत्वा शान्तिम् च स यथाविधि दर्शयामास रामाय तदा श्रमपदम् कृतम् सतम् दृष्ट्वा कृतम् राघवः पर्णशालायाम् हर्षमाहारयत् परम् सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा अतिस्निग्धम् च गाढम् च वचनम् चेदमब्रवीत् प्रीतोऽस्मि ते महत्कर्म प्रभो प्रदेयो यन्निमित्तम् ते कृतः भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मणा त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम एवम् लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः तस्मिन् देशे बहुफले न्यवसत् स सुखी कञ्चित्कालम् स धर्मात्मा सीतया लक्ष्मणेन च अन्वास्यमानोऽन्यवसत्स्वर्गलोके यथामरः त्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चदशः